थ दशकम् दक्षो विरिञ्चितनयोऽथ मनोऽस्तनूजाम् लब्ध्वा प्रसूतिमिह षोडश चापकन्याः धर्मे त्रयोदश ददौ प्रमुदिताः घोषाः पुष्पोत्करान् प्रववृषुर्नुनुवु सुरौघाः दैत्यम् सहस्र कवचम् कवचैः परीतम् साहस्रवत्सर तपः समराभिलव्यैः पर्याय निर्मित अन्वाचरन् उपदिशन्नपि मोक्ष धर्मम् त्वम् भ्रातृमान् बदरिकाश्रममध्यपात्सीः शक्रोथ ते शमतपो बलनिः सहात्मा दिव्याङ्गना परिवृतम् प्रजिघायमारम् कामोपसन्तमलयानिलबन्धुशाली कान्ताकटाक्षविशिखैर्विकसद्विलासैः विध्यन् मुहुर्म् मुहुरकम् पमुदीक्ष्य च त्वम् भीतस्त्वयाथ जगदे मृदुहा सभाजा भीत्यालमङ्गज वसन्त सुराङ्गना वो मन्माननम् द्विहजुषध्वमिति त्वं विस्मयेन परितस्तुवता बतामथैषाम् प्रादर्शय स्वपरिचारक कातराक्षीः सम्मोहनाय मदनादयस्ते त्वद्दासिका परिमलैः किल मोहमापुः त्रपयैव सर्वस्वर्वासि गर्वशमनीम् पुनरुर्वशीम् ताम् दृष्ट्वोर्वशीम् तव कथाम् च निशम्यशक्रः पर्याकुलो जनि भवन्महिमावमर्शात् एवम् प्रशान्तरमणीयतरावतारात् वरद कृष्णतनुस्त्वमेव दक्षस्तु नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् येन व्यरुन्धस भवत्तनुमेव शर्वम् यज्ञे च वैरपिशुने कृत्तशीर्षो देवप्रसादित हरादथलब्धजीवः त्वत्पूरित क्रतुवरः प्रशान्तिकरपाहि मरुत्पुरेश इति दशकम्